श्रीजगदम्बिकायै नमः अथ श्रीमद्देवी भगवतमहापुराणे तृतीयस्कन्धे अष्टविंशोऽध्यायः श्रीरामचरितवर्णनम् जन्मे जय उवाच कथं रामेण सच्चिरमृतं देव्या सुखप्रदम् रजभ्रष्टै कथं सोथे कथं सीतावृता पुनः व्यासुवाच राजा दरत श्रीमान अयोध्या सूर्यश देव ब्राह्मण पूजक चारो नि विजुता राम लक्ष्मण शत्रुघ्ना सर्वे सदृश गुण रूप कौसल्या सुम कैकय्या भरत स्मृत सुमित्रा तनयो जातो यमलौ द्वौ मनोहरौ ते जाता वै किशोरा च धनुर्भरणधरा किल भूपते सुखवर्धका कौशिकेन तदागत्य प्रार्थितो रघुनन्दन राघवम् मखरक्षार्थम् सूनम् सौ षोडशवार्षिकम् तस्मै सोऽयम् दतो रामम् कौशिकाय सलक्ष्मणम् तौ समेत्य मुनि मार्गे जग्मतु चारुदर्शनौ ताटका न्यता मार्गे रक्षसी घोरदर्शना रामेणैकेन बाणेन ना मुनी नाम दुःखदासुदा यज्ञरक्षा कृता तत्र सुबाहुन्यतशठिथ मतप्रायो निक्षिप्तो बाणवे गतः एवं कृत्वा महत्कर्म यज्ञस्य परिरक्षणम् गतास्ते मिथिलां सर्वे राम लक्ष्मणकौशिकः अल्या मोचिता चापान् निष्पाप सा कृतावला विजयः नगरे तौ तु जग्मतोमुनिना सह भभञ्जे शिव चापञ्च जनकेन पुणीकृतम् उपयेमे तदस्ति तां जानकीञ्च रमाञ्चयाम् लक्ष्मणाय ददो राजा पुत्रीम् एकां कुशध्वज सुधे कन्ये प्रापुतो भ्रातरौ भव तथा भरतशत्रुघ्नौ सुचीलो शुभलक्ष्मणौ एवम् दारक्रियास्तेषाम् भरतॄणां चाभवन्नृप चतुर्णाम् चा मिथिलायाम् तु यथा विधिविधानतः राजयोग्यम् सुरम् दृष्ट्वा राजा दशरसदा राघवाय धृरम् दातुम् नश्चक्रे वै सम्भारं वीतं दृष्ट्वा कैकैः पूर्वकल्पितौ वरो सम्प्रार्थयामास भर्तारम् राजं सुताय चैकेन भरताय मात्म्य रामाय वनवासञ्च चतुर्दश समासथ तथा रामस्तु वचनात् तस्या सीता लक्ष्मणसंयुते जगामदण्डकारण्यं राक्षसे उपसेवितं राजा दशरथपुत्रविरहेण प्रपीडितः जहो प्राणान् आत्मा पूर्वचापं मनस्मरन् भरते पितरन् दृष्टामृतम् भ्रातृकृतेन वै राज्यम् रुद्धम् न जग्राह भ्रातृप्रिय चिकीषया पञ्चवट्याम्ब सन्द्रामो रावण वरजामने शर्पणखाम् विरूपाम् वै चकाराति स्मरासुरम् करादयतु ताम् दृष्ट्वा छिन्ननासाम् निशाचरः चक्रुसङ्ग्रामम् मतुलम् रामेण मिततेजसा सजघानखरादि च दैत्यानतिबलान् वितान् मुनीनाम् हितवन्मन्विच्छन् राम सत्यपराक्रमः गत्वा शूर्पणखालङ्गम् खरदूषणघातनम् दूषिता कथयामास रावणाय च राघवान् स्वपि श्रुत्वा विनाशं तम् जात क्रोधवशम् खल जगामर्थमारुह्य मारिचरस्याश्रमन्ददा कृत्वा हे मम मृगम् नेतुम् प्रेषयामा श्रावणः सीता प्रलोभनाथाय माया असम्भवम् श्रोथ हे मम मृगो भूत्वा सीता दृष्टिवसङ्गतः मायावीचातिविचित्राङ्गे चरन्तबलमन्तिके तद्दृष्ट्वा जानकी प्राह राघवम् दैव शर्मानयस्य कान्तेति स्वाधीन पतिकाते पथिका यथा अविचार्याथ रामोऽपि तत्र संस्थाप्य लक्ष्मणम् स शरम् ययो मृग पदानुगः स रङ्गोऽपि हरिं दृष्ट्वा माया कोटिविशारदः दृश्य दृश्य बभूवाथ जगाम च वनान्तरम् मत्वा हस्तगतम् राम जघा चाति चातितीक्ष्णेन शरीर कृत्रिमं मृगम् स हतो बलात्तेन चुक्रोश भृज दुःखितः हा लक्ष्मण हतोऽस्मीति माया वीनश्वर कल स शब्दतुमलस्तावत् जानक्या संश्रित सदा सभवस्येति सा मत्वा दीना देवरमीत् कच्छ लक्ष्मणतूर्णं तं हृतोऽसो रघुनन्दन तामाभायति सौमित्रे साय्यम् गुरुत्वा परम् तत्र लक्ष्मण सीतामम्बरामवधादपि नाहं गच्छति मुक्त्वा ताम् असहाय्यां ह्य श्रे अज्ञामे राघवस्यात्र तिष्ठति जनकात्मके तदतिक्रम भीतोहं न दूरं वै राघवम् दृग् त्यक्त्वा ताम् नाधिगच्छामि पदमेकम् शुचिमिते कुरुधैर्यम् न मन्यज्य राम मान्तुम् क्षमाक्षितौ नाहम् त्यक्त्वा गमिष्यामि विलङ्घ्य रामभाषितम् व्यासुवाच रुदति सुदति प्राहे तम् तदा विधि नोदिता अक्रूरावचनम् क्रूरम् लक्ष्मणम् शुभलक्षणम् अहम् जानामि सौमित्रे सानुरागम् च माम् भरते भरतेनैव मदर्थम् यसङ्गतम् नाहम् तथा विधानादि त्रैरेणैकते रामे पतिं ताम् न कर्तुमिच्छामि कामतः नागमिष्यति चेत् रामो जीवितं संसृजाम्यहम् विना तेन न जीवामि विधुरा दुःखिता गच्छ वा तिष्ठ सौमित्रेण जानेऽहम् त्ववेप्तम् क्व गतम् तेऽत्र सौहार्दम् ज्येष्ठे धर्मरते किल तच्छ्रुत्वा वचनं तस्य लक्ष्मणो दीनमानस प्रोवाच्य रुद्धकण्ठस्तु तां तदा जनकर्मुजम् किमार्थयक्षतिजे वाक्यं मयि क्रूरतरं किल किं वदस्य चनिष्टं मेते भावी जाने ह्य ह्ययम् इत्युक्त्वा निरियो वीरतां त्यक्त्वा अज्रेजस्य ययोपश्यत् चोकार्थ पृथ्वीपते गतेथ लक्ष्मणे तत्र रावणकपटाकृतिः भिक्षुवेशम् तस्य कृत्वा प्रविवेश सदाश्रमे जानकी त्वम् यतिं मत्वा दत्वार्घ्यम् वन्द्यमादरात् भैक्ष्यम् समर्पयामास रावणा य तं प्रवच्छ सभदुष्टात्मा नम्रपूर्वम् मृदुस्वरम् काशी पद्मपशा पलाशाक्षी वने चैकाकिनी प्रिये पिता कस्य मोरु भ्राता कति तव मूढे वैकाकिनी च निर्जने विपिने किं तं सौधा सम्मतिप्रिये कुटजे मुनिपत्नीवत् देवकन्या समप्रभा इति तद्वचनं श्रुत्वा प्रत्युवाच विदेहजा दिव्यं दित्या यतिं ज्ञात्वा मन्दोधर्यापतिं तदा राजा दशरथ श्रीमान् चत्वार वैसुता तेषु जश्चे श्रीरामनामेति विश्रुते विवासितोथ कैकेय्या कृते भूपाव चतुर्दश समारामो वसेत्र सलक्ष्मणाय जनकस्य सुधा चाहं सीता भङ्क्त्वा चैवं धनुः कामम् रामेणाहं विवाहिता राम बाहुबले नात्रे वसामि वो निर्भया वने काञ्चनम् मृगमालोक्य हन्तुम्बे निर्गतपति लक्ष्मणोऽपि पुनश्चृत्वारवं भ्रातुर्गतोऽधुना तयो बाहुबला तत्र निर्भयाहं वसामि वै मय इदं कथितं वृत्तान्तं वनवासके तेत्रागत्यार्हणां ते वै करिष्यन्ति यथाविधि यदिरूपोऽसि तस्मा पूजितो मया आश्रम, आश्रमो विपिने घोरे कृतोऽस्ति रक्षसां कुले तस्मात् तं परिपृच्छामि सत्यं ब्रूहि ममाग्रतः कोऽसि त्रैदण्डिरूपेण विपिनेतं समागतः रावणोवाच लङ्केशोऽहं मरालाक्षि श्रीमान् मन्दोदरीपति सत्कृते तु कृतम् रूपम् मयेत्थम् शोभनाकृते आगतोऽहम् वरारोहे भगिन्य प्रेरितोऽत्र वै जनस्थाने हतो श्रुत्वा भ्रातृ करदूषणौ अङ्गीकुरु नृपम् मांतम् त्यक्त्वा तम् गतश्रीकम् निर्बलम् वनवासिनम् पट्टाग्नि भवत्तम् मे दासोऽस्मि तव तन्मङ्गी स्वामिनि भवभामिनि चेताहं लोकपालानां पतामि तव पादयो करं गृहाण वेद्यत्वं स नाथं गुरुजानकी याचित ते याचितः पूर्वं मया भे अबले जनको माम् वाचेथं पणबन्धो मया कृते रुद्र मनोभे संस्कृतं तावन् निमग्नं विरातुरं वनेत्र संस्थितां श्रुत्वा कुर्वानुरागमोहितः सफलं कुर्मे श्रमम् इति श्रीमद्देवी भागवते महापुराणे अष्टादशसहस्र्यां संहितायां तृतीयस्कन्धे रामचरित्रवर्णनं नाम अष्टाविंशध्याय श्रीसीताराम श्रीजगदम्बिकायै नमः